मुद्गलपुराणं खण्डं नयन् योगचरितम् अध्यायं ट्वेन्टि वन् पारायणवर्णनम् श्रीगणेशाय नमः उवाच अथ कामयुधानां यत्पुराणश्रवणे फलं कथयामि समासेन सर्वसिद्धिप्रदायकम् अत्रिगोत्रोद्भवः कश्चिद्विप्रसर्वार्थकोविदक त्यक्त्वा स्वधर्मजं कर्म पापकर्मपरो भवद तं ज्ञात्वा पितरौ तस्य दुःखयुक्तौ बभूवधुः सुशीला सुमुखौ नाम्ना सुमधिं दिम्ण। वीक्ष्य दुर्मधिं सुमधिं वीक्ष्य पुत्रं तौ शिक्षयन्तौ निरन्तरं स तयोर्वचनं दुष्टो न चकारकदाचन ततस्थौ दुःखसंयुक्तौ स्थितौ स्वस्याश्रमे कदा साक्षान् मुनिवरस्तत्र सम्पूज्य मुनिशर्दूलं दुःखवन्दावपृच्छतां पुत्रं सुशीलं कर्तारमुपायं सुखदायकम् तदस करुणाविष्ठस्तौ जगाम महामदिः पुत्रस्ते मौद्गलं श्रुत्वा सुशीलोऽयं भविष्यति एवमुक्त्वा ययौ स्थानं भरद्वाजो महामुनिः सुमुखपुत्रसंयुक्तस्त्रियात्रिं प्रजगामः <Sess> -kutra -tasya -jagad -hidam -hidam ं प्रणम्य महाभागं योगीन्द्रं योगदायकं पप्रच्छमौद्गलं कुत्र लभ्यदे तद्वदस्वमे तस्य तद्वचनं श्रुत्वा कर्षयुक्तो महामुनिः अत्रिसम्मान्यविप्रेषं जगादवचनं हितम् अत्रिरुवाच मा चिन्तां कुरुपुत्रत्वं स्थीयतामाश्रमे मम पारायणं करिष्यामि भाद्रमास्येकमादराद तत्र त्वम् अौद्गलं श्रुत्वा गच्छ पश्चात् स्वमाश्रमं तथेदि सुमुखो हर्षात् तं प्रणम्य चकार कालेन भाद्रनाम समाययौ मासो मुनिगणस्तत्र श्रवणार्थं समाययुः क्षत्रियान् वैश्यकान् शूद्रां स्थान् दृष्ट्वा हर्षसंयुधः सुमुखो विधिवत्तत्र शुश्रुवे विधिसंयुधः उपोषणपरो भूत्वा पञ्चम्यां ब्राह्मणैः सह चकारपारणंसोऽपि भक्तियुक्तेन च दशा ततस्तस्य सुदस्सोऽपि सुमतिशीलसंयुधः बभूवद्धर्मसंयुक्तः स्वाचारस्थो महामतिः तद्दृष्ट्वा परमाश्चर्यं शस्त्रीकः पुत्रसंयुधः गणेशभजने शक्तो योगिवन्द्यो बभूवः अन्ते गणेश्वरं प्राप्य ब्रह्मीभूतो भवद्विजः यदत्ते कथितं विप्र शृण्वन्यच्चित्रमुत्तमं तत्र पारायणे कश्चिद्वृषभो दुःखसंयुतः अशक्तत्वास्थितो दूरं शुश्रुवे किञ्चिदादराद ममारतत्र तं नेतुं गाणपत्याः विस्मिता सर्वे पप्रच्यु परिपूज्य विप्राद्याऊजुः केन पुण्येन युष्माभिर्पृषभो नीयते मराह वदन्तु गाणप्रवरा स्वानन्दे चित्रमुत्तमं गाणेशा ऊजुः अयं भवत्सन्निधाने पतितो दुःखसंयुतः शुश्रावमौद्गलं पारायणमेव महर्षयः मध्ये ममारदुःखेन पीडितोदितरां वृषः अधुना ब्रह्मभूतं तं करिष्यामो न संशयः मौद्गलस्य पदं श्रुत्वा लोकस्तश्चेन्मृतो भवेद् न तस्य पुनरावृत्तिर्भविष्यदि न संशयः तेषां तद्वचनं श्रुत्वा हर्षयुक्ता महर्षयः पप्रत्युस्तान् पुनश्चित्रं संशयेन समन्विताः विप्रावुचुः अयं वृषभयोनिष्ठो वयं मानवदेहजाः अस्माभिः कथितं सर्वं ज्ञायते वृषभेण न वृषभेण यदुक्तं तद्वचनं मानभैः कदा ज्ञायतेन विशेषेण योनिभिन्नप्रभावतः अयं वृषभयोनिष्ठ परं पारायणं कथं श्रुत्वा तस्य माहात्म्यं फलभोक्ता भवेत्पराः गाणे शौजुः श्रवणं वृषभेणैव कृतं ज्ञानविवर्जितम् अन्यच्छब्दप्रमातृत्वं श्रद्धाहीनेन निश्चितं ज्ञानदो ज्ञानदो वापि यथा वह्निकणो दहेद सम्पृष्टश्चेन्महाभागा मौद्गलं तु तथा स्मृतं योगामृदमयं पूर्णं मौद्गलं सर्वसम्मतं सर्वसिद्धिप्रदं प्रोक्तं ब्रह्मीभूतकरं तथा यवमुक्त्वा यैः सर्वे गणेशगणपालयं वृषभं गृह्यते चित्रं ब्राह्मणा विस्मिता जगुः एवं मौद्गलजं मा चित्रं माहात्म्यं मुनिषत्तम तस्य प्रभावजं तेजो वर्णेतुं कः क्षमो भवेत् ॐ सत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे नवमे खण्डे योगमृतार्थशास्त्रे दक्षमुद्गलसंवादे पारायणवर्णनं नामैकविंशतितमोऽध्यायः ओम्